हरि ओम् श्री सीतारामचन्द्राभ्य नमः अथ श्रीमद् वाल्मीकि रामायणे युद्धकाण्डे त्र्याशीतितमः सर्गः सीतावधम् श्रुत्वा शोकेन श्रीरामस्य मूर्छा तम् आश्वासयतु लक्ष्मणस्य पौरुषार्थम् उद्यमश्च राघवेपि विपुलम् तं राक्षलोकसाम् श्रुत्वा संग्रामनिर्घोषम् चाम्ब्रवन्दम् उवाच सौम्य नूनं हनुमता कृतं कर्म सुदुष्करम् श्रूयते च यथा भीमः सुमहानायुधस्वनः तगच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः क्षिप्रं रुक्षपते तस्य कपि श्र्रेष्ठस्य युध्यतः वृक्षराजस्तथेत्युक्त्वा वेनानीकेन संवृतः आगच्छत् पश्चिमम् द्वारम् हनुमान् यत्र वानरः अद्धायान्तम् हनुमन्तम् ददर्श ऋक्षपतिस्तदा वानरे कृतसङ्ग्रामे श्वसद्भिः दृष्ट्वा हनुमाचे हनोमा च बलमुद्यतं नीलमेघ निबम्भीमं सन्निवार्य न्यवर्तत स सहसैन्येन सन्निकर्षं महायशः शीघ्रम् आगम्य रामाय दुःखितो वाक्यमब्रवीत् समरे युध्यमानानाम् अस्माकम् प्रेक्षतां च स जघाने रुदतीं सीताम् इन्द्रजी श्रावणात्मजः उद्भ्रान्त चित्तस्ताम् दृष्ट्वा वियन्नोऽहम् रिन्दम् तदहम् भवतो वृत्तम् विज्ञापयितुमागतः तस्य तद्वचनं श्रुत्वा राघवशोकमूर्छितः निपपात तदा भूमो, छिन्नभूर इव द्रुमः तं भूमौ देव पतितं दृश्य राघवम् अभिपेतु समुत्पत्य सर्वतः कपि सत्तमः आसिञ्चन् सलिलैश्चैनम् पद्मोत्पल सुगन्धिभिः प्रदहन्तम् असौहार्यम् ग्निम् निवोत्थितम् तं लक्ष्मणोऽथ बाहुभ्यां परिष्ज्य सुदुःखितः उवाच रामस्वस्थम् वाक्यं हेत्वर्थसंयुतम् शुभे वर्त्मनि तिष्ठन्तं साम् आर्य विजितेन्द्रियम् अनर्थेभ्यो न धर्मो निरर्थकः भूतानां स्थावराणां च जङ्गमानां च दर्शनं यथास्ति न तथा धर्म तेन नास्तीति मे मतिः यथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् नायमर्थ तथा युक्त त्वद्विधो न विपद्यते यद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत् भवाच धर्मसंयुक्तो नैव व्यसनमाप्नुयात् तस्य च वसनाभावात् व्यसनं चागते त्वयि धर्मो भवत्य धर्मश्च परस्परविरोधिनो धर्मेणोपलभे धर्मम् अधर्मं चाप्यधर्मतः यद् अधर्म यद्य धर्मेण युज्येयुः येष्वधर्मः प्रतिष्ठितः न धर्मेण वियुज्येरन् न धर्मरुचियोजनः धर्मेणाचरतां तेषां तथा धर्मः फलं भवेत् यस्या दर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः निरर्थकौ वध्यन्ते पापकर्माणो यद्यद्धर्मेण राघव वध कर्मतो धर्म स्वहतकं वधिष्यति अथवा विहितेनायम् अन्यते हन्ति च परं विधिस्तिप्यते तेन न च पापेन कर्मणा अदृष्टप्रतिकारेण अव्यक्ते नासतासता कथम् शक्यम् परम् प्राप्तुम् धर्मेणारी विकर्षणः यदि सदाम् मुख्य नासस्यात् तव किञ्चन त्वया यदीदृशम् प्राप्तम् तस्मात् तन्नोपपद्यते अथवा दुर्बलः क्लीबौ बलम् धर्मोनुवर्तते दुर्बलो हृतमर्यादो नसे सेव्य इति बलस्य मतिः यदि चेत् धर्मो गुणभूत पराक्रमैः धर्मम् वर्तस्व यथा धर्मे तथा बले अथ चेत् सत्यवचनं धर्म परन्तप पर अनृतं तैय करणे किं न यदि धर्मो भवेद्भूत अधर्मो वा परन्तप न स्महर्ता मुनिं वज्री कुर्यादीज्ञां चक्रतुः अधर्म संजृतो धर्मो विनाशयति राघवे सर्वमेतद्यथा कामं काकुत्स्थ कुरुते नर मम चेदं मतं ताप धर्मोऽयमिति राघवे धर्ममूलं त्वया छिन्नम् राज्यं भूतॄ यथा तदा अर्थेभ्योऽ प्रवृद्धेभ्यः संवृतेभ्यस्ततः क्रिया सर्वा प्रवर्तन्ते पत्तौ पर्वतेभ्यः इवापकः अर्थे हि विमुक्तस्य पुरुषस्याल्पचेतसः विच्छिद्यन्ते क्रिया सर्वाः में यथा है, ग्रीष्म सुख काम सुखी पापरते कर्त तदा दोष प्रवर्त यधव स लोक यंडि यहा यस्या स च बुद्धिमान् यस्या स महाभागो यस्यार्था स गुणाधिक अर्थस्यैते परित्यागे दोषा प्रव्रायुधृता मया राजमुत्सृजत धीर येन बुद्धिः त्वया कृता यस्यार्था धर्मकामार्थ तस्य सर्वम् प्रदक्षिणम् अधनेनार्थ कामेन नार्थः शक्यो विचिन्वतः ह्य कामः दर्पश्च धर्म अर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिपः येषां नश्यत्ययं लोके, चरतां धर्मचारिणां तीर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहा त्वयि गुरोश्च वचने स्थिते रक्षसा परसा भार्या करणैः प्रियतर तव तदद्य विपुलं वीर दुःखम् इन्द्रजिता कृतम् कर्मणा व्युपनेष्यामि तस्मादुत्तिष्ठ राघव उत्तिष्ठ नरशार्दूल दीर्घबाहो धृतव्रत किमात्मानम् अपमानम् आत्मानं नावबुध्यसे अयं मननगस्तोदित प्रियार्थं जनकस्रुता निधनं निरीक्ष्य रुष्ट स्वरथगजहयां स्वराक्षसेन्द्रां भृशं विशुभिर्विनिपातयामि लङ्काम् इत्याख्ये श्रीमद् रामायणे वाल्मीकीयाधिकारे युद्धकाण्डे त्र्यशीतितमः सर्गः